त्रिपञ्चाशः सर्गः धूम्राक्षम् निहतं श्रुत्वा रावणो राक्षसेश्वरः क्रोधेन महता विष्टो निःश्वसन्नुरगो यथा दीर्घमुष्णम् विनिश्वस्य क्रोधेन कलुषीकृतः अब्रवीद्राक्षसम् क्रूरम् वज्रदम्ष्ट्रम् महाबलम् गच्छ त्वम् राक्षसैः परिवारितः जलहिदाशरथिम् रामम् सुग्रीवम् वानरैः सह तथेत्युक्त्वा द्रुततरम् मायावीराक्षसेश्वरः निर्जगामबलैः सार्धम् बहुभिः परिवारितः नागैरश्वैः खरैरुष्ट्रैः संयुक्तः सुसमाहितः हताकाध्वजचित्रैश्च बहुभिः समलङ्कृतः ततो विचित्रकेयूरमुकुटेन विभूषितः तनुत्रम् स समावृत्य सधनुर्निर्ययौद्धृतम् पताकालम् कृतम् दीप्तम् तत्तकाञ्चनभूषितम् रथम् प्रदक्षिणम् कृत्वा समारोहच्च मोपतिः ऋषिभिस्तोमरैश्चित्रैः श्लक्षणैश्च मुसलैरपि भिन्दिपालैश्च चापैश्च शक्तिभिः पट्टिषैरपि परश्वधैः पदातयश्च निर्यान्ते विविधाः शस्त्रपाणयः विचित्रवाससः सर्वे दीप्ता राक्षसपुङ्गवाः गजामहोत्कटाः शूलाश्चलन्त इव पर्वताः ते युद्धकुशलारूढा स्तोमराङ्कुशपाणिभिः अन्ये लक्षणसंयुक्ताः शूरारूढा महाबलाः तद्राक्षसबलम् सर्वम् विप्रस्थितमशोभता प्रावृट्काले यथा मेघा नर्दमानाः स विद्युतः निःसृता दक्षिणद्वारादङ्गदो यत्र यूथपः तेषाम् निष्क्रममाणानामशुभम् समजायत आकाशाद्विखनात् तीव्रा उल्काश्चाभ्यपतंस्तदा ममन्तः पावकज्ज्वाला शिवाघोरा बवाशिरे याहरन्तमृगाघोरा रक्षसाम् निधनम् तदा समापतम् तो योधास्तु प्रास्खलम्स्तत्प्रदारुणम् एतानौत्पातिकान् दृष्ट्वा वज्रदम् श्रो महाबलः धैर्यमालं तेजस्वी निर्जगामरणोत्सुकः तांस्तु विद्रवतो दृष्ट्वा वानराजितकाशिनः प्रणेदुः सुमहानादान् दिशः पूरयन् ततः प्रवृत्तम् राक्षसैः सह घोराणाम् भीमरूपाणामन्योन्यवधकाङ्क्षिणाम् निष्पतन्तो महोत्साहः भिन्नदेहशिरोधराः रुधिरोक्षितसर्वाङ्गान्यपतम् धरणीतले केचिदन्योन्यमासाद्यशूराः परिघवाहवः चिक्षुपुर्विविधा छस्त्रान् समरेष्व निवर्तिनः द्रुमाणाम् च शिलानाम् च शस्त्राणाम् चापि निःस्वनः श्रूयते सुमहांस्तत्र घोरो हृदयभेदनः रथ नेमिस्वनस्तत्र धनुषश्चापि घोरवत् शङ्खभेरी मृदङ्गानाम् बभूवतु मुलस्वनः केचिदस्त्राणि सन्त्यज्य बाहु युद्धमकुर्वत तलैश्च चरणैश्चापि मुष्टिभिश्च द्रुमैरपि जानुभिश्च हताः केचिद्भग्नदेहाश्च राक्षसाः शिलाभिश्चूर्णिता केचिद् वानरैर्युद्धदुर्मदैः वज्रदंष्ट्रोभृषम् बाणैरणे वित्रासयम् हरीन् चचालोकसंहारे पाशहस्त इवान्तकः बलवन्तोऽस्त्रविदुषो नानाप्रहरणारणे जघ्रवानरसैन्यानि राक्षसाः क्रोधमूर्च्छिताः जघ्नेतान् राक्षसान् सर्वान् धृष्टो बालिसुतोरणे क्रोढेन द्विगुणाविष्टः संवर्तक इवानलः तान् राक्षसगणान् सर्वान् वृक्षमुद्यम्यवीर्यवान् अङ्गदः क्रोधताम् राक्षसिंहः क्षुद्रमृगानि वा चकारकदनम् घोरम् शक्रतुल्यपराक्रमः अङ्गदाभिहतास्तत्र राक्षसाभिमविक्रमाः विभिन्नशिरसः पेतुर्निकृत्ता इव पादपाः रथैश्चित्रैर्ध्वजैरश्वैः शरीरैर्हरिरक्षसा हृधिरोघेण सञ्छन्ना भूमिर्भयकरी तदा हारकेयूरवस्त्रैश्च शस्त्रैश्च समलम् कृता भूमिर्भातिरणे तत्र शारदीव यथारिषा अङ्गदस्य प्राकम्पत तदा तत्र पवनेनाम्बुदो यथा इत्यादर्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिपञ्चाशः सर्गः